पादपाठं गणानान्तवा गणपतिं हवामहे कविं कवीनामुपमश्रवस्तमं ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पते आनशृण्वन्नूतिभिस्सीदसाधनं गणानान्तवागणपतिं हवामहे कविं कवीनामुपमश्रवस्तमम् ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पते आनशृण्वन्नूतिभिः सीदसादनं गणानान्तवागणपतिं हवामहे कविं कवीनामुपमश्रवस्तमं ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पते आनशृण्वन्नूतिभिः सीदसादनम्